श्रीमन श्रीम्मत आदिपर्व आस्तीकपर्ण अमृतमंथनेप्तशोध्या सौ तीवाच एक काले भगि तपोधन समायाते उच्चै श्रवसमन्तिकात। यन्तं देवगणाः सर्वे हृष्टरूपमपूजयन् मध्यमानेमृते जातमश्वरत्नमनुत्तमम् अमोघबलमश्वानामुत्तमं जगतां वरं श्रीमन्तमजरं दिव्यं सर्वलक्षणपूजितं शौनक उवाच कथं तदमृतं देवैर्मथितं क्व च शंसमे यत्र जज्ञे महावीर्यः महाद्युतिः सौतिरुवाच ज्वलन्तमचलं मेरुं तेजो आक्षिपन्तं प्रभां भानु स्वशृङ्गैः काञ्चनोज्वलैः कनकाभरणं चित्रं देवगन्धर्वसेवितम् अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः व्यालैरावारितं घोरैर्दिव्यौषधिविदीपितं नाकमावृत्य तिष्ठन्तमुच्छ्रयि अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितं नानापतकसङ्घैश्च नादितं सुमनोहरैः तस्य शृङ्गमुपारुह्य बहुरत्नाचितं शुभम् अनन्तकल्पमुद्विद्धं सुराः सर्वे महौजसः ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः अमृताय समागम्य तपो नियमसंयुताः तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत् चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः देवैरसुरसङ्घैश्च मध्यतां कलशोदधिः भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ सर्वौषधीः समावाप्यसर्वरत्नानि चैव मन्थध्वमुदधिं देवावेत्स्यध्वम् अमृतं ततः श्रीमन्रीमन महाभारत आदिपर्व आस्ती कपि अमृत मंथने सप्तशोध्याय